अथाष्टाशीतितमः सर्गः विभीषणवच रावणिः क्रोधमूर्च्छितः अब्रवीत्परुषम् वाक्यम् क्रोधेनाभ्युत्पपात च उद्यतायुधनिस्त्रिंशो रथे कालाश्वयुक्ते महति स्थितः कालान्तकोपमः महाप्रमाणमुद्यम्य धनुर्भीमबलो भीमम् शरांश्चामित्रनाशनान् तन्ददर्शमहे श्वासो रथस्थः समलङ्कृतः अलङ्कृतममित्रघ्नो रावणस्यात्मजो बली हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम् उवाचैनम् सुसंरब्धः सौमित्रिम् सविभीषणम् तांश्च वानरशार्दूलान् पश्यध्वम् पराक्रमम् अद्य मत्कार्मुकोत्सृष्टम् शरवर्षम् दुरासदम् मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे अद्य वो मामकाबाणा महाकार्मुकनिःसृताः विधमिष्यन्ति गात्राणि तूलकाशिमिवा नलः तीक्ष्णसायकनिर्भिन्नाच्छूलशक्त्यर्ष्टितोमरैः अद्यवोगमयिष्यामि सर्वानेवयमक्षयम् सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे जीमू तस्यैव नदतः कस्थास्यति ममाग्रतः रात्रियुद्धे तदा पूर्वम् वज्राशनिसमैः शरैः शायितौ तौ मया भूयोभिसञ्ज्ञौ स पुरःसरौ स्मृतिर्नतेऽस्ति वामन्ये व्यक्तम् यातोऽयमक्षयम् आशीर्विषसमम् क्रुद्धम् यन्माम् योद्धुमुपस्थितः तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितम् राघवस्तदा अभीतवदनः क्रुद्धो रावणिम् वाक्यमब्रवीत् उक्तश्च दुर्गमः राक्षसत्वया कार्याणाम् कर्मणा पारम् यो गच्छति हीनार्थो दुरवापस्य केनचित् जानीषे कृतार्थोऽस्मीति दुर्मते अन्तर्धानगतेनाजौ यत्त्वयाचरितस्तदा तस्कराचरितो मार्गो नैष वीरनिषेवितः यथा बाणपथम् प्राप्य स्थितोऽस्मितवराक्षस दर्शय स्वाद्यतत्तेजोवाचा त्वम् किम्विकथसे एवमुक्तो धनुर्भीमम् परामृश्य महाबलः तेन सृष्टा महावेगाः शराः सर्पविशोपमाः सम्प्राप्य लक्ष्मणम् पेतुः श्वसन्त इव पन्नगाः शरैरति महावेगैर्वेगवान् रावणात्मजः सौमित्रिमिन्द्रजिद्युद्धे विव्याधशुभलक्षणम् स शरैरति विद्धाङ्गो रुधिरेण समुक्षितः शुशुभे लक्ष्मणः श्रीमान् विधूम इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च विनद्यसुमहानादमिदम् वचनमब्रवीत् पत्रिनश्रितधारास्ते शरामत्कार्मुकच्युताः आदास्यन्तेऽद्य सौमित्रे जीवितुम् जीवितान्तकाः अद्य गोमायुसङ्घाश्च श्येन सङ्घाश्च लक्ष्मणा गृध्राश्च क्षत्रबन्धुम् सदा नार्यम् रामः परमदुर्मतिः भक्तम् भ्रातरमद्यैव त्वाम् मया विस्रस्तकवचम् भूमौ व्यपबिद्धशरासनम् हृतोत्तमाङ्गम् सौमित्रे त्वामद्यनिहतम् मया इति ब्रुवाणम् सङ्क्रुद्धः परुषम् रावणात्वजम् हेतुमद्वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाचः वाग्बलम् त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षसा अथ सुकर्मणा अकृत्वा कत्थसे कर्म किमर्थमिह राक्षसा कुरु तत्कर्म येनाहम् श्रद्धेयम् तव कत्थनम् अनुक्त्वा परुषम् वाक्यम् किञ्चिदप्यनवक्षिपन् पुरुषादना इत्युक्त्वा पञ्च नाराचाना कर्णा पूरिताञ्छरान् विजघानमहावेगाल्लक्ष्मणो राक्षसोरसी सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः नैररुतोरस्य भासन्त सवितूरश्मयो यथा स शरैराहतस्तेन सरोषो रावणात्मजः सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिभिव्याधलक्ष्मणम् सब भूव महाभीमो नर राक्षस सिंहो विमर्दस्तु मुलो युद्धे परिण विक्रा बल सपन्ना बुभौ विक्रमशालिनौ परम दुर्जेवतु्य बल तेजसौ युजुधा ते वीरौ ग्रहा दुष्प्रधर्षण युजुधा ते महात्मा बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यता ततः शरान्दाशरथिः सन्धायामित्रकर्षणः ससर्ज राक्षसेन्द्राय क्रुद्धः तस्य ज्यातलनिर्घोषम् सश्रुत्वा राक्षसाधिपः विवर्णपद नो समुदैक्षत विवर्णवदनम् दृष्ट्वा राक्षसम् रावणात्मजम् सौमित्रिम् युद्धसंयुक्तम् प्रत्युवाच विभीषणः निमित्तान्यपश्यामि यान्यस्मिन् रावणात्मजे त्वरतेन महाबाहो भग्न एष न संशयः ततः सन्धाय सौमित्रिः शरानाशीविषोपमान् मुमोच विशिखांस्तस्मिन् सर्पानिव विषोऽल्बणान् शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः उपलभ्य मुहूर्तेन सञ्ज्ञाम् प्रत्यागतेन्द्रियः ददर्शावस्थितम् वीरमाजौ दशरथात्मजम् सोऽभिचक्रामसौमित्रिम् रोषात् संरक्तलोचनः अब्रवीच्चैनमासाद्य पुनः सपरुषम् वचः किम् प्रथमे मत्पराक्रमम् निबद्धस्त्वम् सहभ्रात्रायदा भ्रात्रा यदा युधि विचेष्टसे युवान् महायुद्धे वज्राशमिसमैः शरैः शायितौ प्रथमम् भूमौ विसम् ज्यौ स पुरःसरौ स्मृतिर्वा नास्ति ते मन्ये यदि ते प्रथमे युद्धेन दृष्टो मत्पराक्रमः अद्य त्वाम् दर्शयिष्यामि तिष्ठेदानीम् व्यवस्थितः इत्युक्त्वा सप्तभिर्बाणैरभिविव्याधलक्ष्मणम् दशभिस्तु हनूमन्तम् तीक्ष्णधारैः शरोत्तमैः ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् क्रोधाद्विगुणसंरब्धो निर्बिभेदविभीषणम् तद्दृष्ट्वेन्द्रजिता कर्म कृतम् रामानुजस्तदा अचिन्तयित्वा प्रहसन्नैतत्किञ्चिदिति ब्रुवन् मुमोच च शरान् घोरान् सङ्गृह्यमरपुङ्गवः अभीतमदनः क्रुद्धो रावणिम् लक्ष्मणो युधि नैवम् रणगताः शूराः प्रहरन्ति निशाचरा लघवश्चाल्पवीर्याश्च नैवम् शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः इत्येवम् तद्ब्रुबन्धन्वीशरैरभिववर्षः तस्य बाणैः सु विध्वस्तम् कवचम् काञ्चनम् महत् व्यशीर्यतरथोपस्थे ताराजालविवाम्बरात् विधूतवर्मा नाराचैर्बभूवसकृतव्रणः इन्द्रजित् समरे वीरः प्रत्यूषे रतः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः बिभेदसमरे वीरो लक्ष्मणम् भीमविक्रमः यशीर्यतमहद्दिव्यम् कवचम् लक्ष्मणस्य तु कृतप्रतिकृतान्योन्यम् बभूवतुररिन्दमौ अभीक्ष्णम् निःश्वसन्तौ तौ युध्येताम् तु मुलम् सर्वाङ्गौ सर्वतो रुधिरोक्षितौ सुदीर्घकालम् तौ वीरा वन्योऽन्यम् निशितैः शरैः ततक्षतुर्महात्मानौ रणकर्म विशारदौ बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ तौ शरोघैस्तथाकीर्णौ निकृत्तकवचध्वजौ सृजन्तौ रुधिरम् चोष्णम् जलम् प्रस्रवणाविव शरवर्षम् ततो घोरम् मुञ्चतोर्भीमनिःस्वनम् सासारयोरिवाकाशे रिवाकाशे, नीलयो, तयोरथ तयो, रथमहान, न च तौ युद्धवैमुख्यम् क्लमम् चाप्युपजग्मतुः अस्त्राण्यस्त्रविदाम् श्रेष्ठौ दर्शयन्तौ पुनः पुनः शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः यपेतदोषमस्यन्तौ च सुष्ठु उभौ तुमुलम् घोरम् चक्रतुर्नरराक्षसौ तयोः पृथक् पृथक् भीमः शुश्रुवेतल निःस्वनः सकम्पम् जनयामास निर्घात इव दारुणः तयोः स भ्राजते शब्दस्तथा समरमत्तयोः सुघोरयोर्निष्टमतोर्गगने मेघयोरिव सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ प्रशुश्रुवाते कीर्तिम्त जुतौ ते गात्रोपतिक्क्म पुंखा शरायुधी असृग्दिग्धा निष्पेशुर्धरणीत अे सुनश्शस्त्रिराकाशे संजघट्टि बभंजुश्चिदुश्च्च तोर्बाण सहस्रशह स बूवरण घोरस्तोबाण मयश्चय अग्निभ्याव दीता सत्रे कुशमच यहाँ कृतव्रण देह शुशुभाते महात्म सुपुष्पाव निष्पत्रौ वनेने किंशुकमल चक्रतुस्तुम घोरम सन्नपत मुहुर्मुहु इंद्रजिल्मणश्च परिण लक्ष्मण रावणि युद्धे रावणिश्चा लक्ष्मण अन्योन्यम् नश्रमं न श्रमम् शरीरस्थै बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ शुशुभाते महावीर्यौ प्ररुढाविव पर्वतौ तयोरुधिरसिक्तानि सम्रतानि शरैर्भृशम् बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः तयोरथ महान् कालोऽ व्यतीयाद्युध्यमानयोः न च मुख्यं श्रमं मुख्यम् श्रमम् चाप्यभिजग्मतुः अथ समर परिश्रमम् निहन्तुम् समरमुखेश्वजितस्य लक्ष्मणस्य प्रियहितमुपपादयन् महात्मा समरमुपेत्यभिभीषणोऽवतस्थे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः